अथाष्टात्रिंशः सर्गः कदाचिदप्यहम् वीर्यात् पर्यटन् पृथिवीमिमा बलम् नागसहस्रस्य धारयन् पर्वतोपमः नीलजीमूलसङ्काशस्तप्त काञ्चन भयम् लोकस्य जनयन् किरीटे परिघायुधः व्यचरम् दण्डकारण्यमृषिमांसा निभक्षयन् विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः स्वयम् गत्वा दशरथम् नरेन्द्रमिदमब्रवीत् अयम् रक्षतु माम् रामः पर्वकाले समाहितः मारीचान्मे भयम् घोरम् समुत्पन्नम् नरेश्वर इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा प्रत्युवाचमहाभागम् विश्वामित्रम् महामुनिम् ऊनद्वादशवर्षोऽयमकृतास्त्रश्च राघवः कामम् तु मम तत्सैन्यम् मया सह बलेन चतुरङ्गेण स्वयमेत्य निशाचरम् वधिष्यामि मुनिः तव यथेप्सितम् एवमुक्तः स तु मुनी लोके पर्याप्तम् तस्य रक्षसः देवतानामपि भवान् समरेष्वभिपालकः आसीत्तपकृतम् कर्म त्रिलोकविदितम् नृप काममस्ति महत्सैन्यम् तिष्ठत्विह परम् तप बालोऽप्येष समर्थस्तस्य निग्रहे गमिष्ये राममादाय स्वस्तितेऽस्तु परम् जगामपरमप्रीतो विश्वामित्रस्वमाश्रमम् तम् तथा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् बभूवोपस्थितो रामश्चित्रम् विस्फारयम् धनुः अजातव्यञ्जनः श्रीमान् बालश्यामः एकवस्त्रधरोधन्वीशिखी कनकमालया शोभयम् दण्डकारण्यम् दीप्तेन अदृश्यत बालचंद्र रामो बालचन्द्र इवोदितः ततोऽहम् मेघसङ्काशस्तप्तकाञ्चनकुण्डलः बलीदत्तवरो दर्पादाजगामाश्रमान्तरम् तेन दृष्टः प्रविष्टोऽहम्सहसैवोद्यतायुधः माम् तु दृष्ट्वा विश्वामित्रस्य ताम् वेदिमभ्यधावम् कृतत्वरः तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः तेनाहम् ताडितः तदा ता वीरेण रक्षितः रामस्य शरवेगेण निरस्तो भ्रान्तचेतनः तदा तेन गम्भीरे सागराम्भसि प्य सञ्ज्ञाम् चिरात्तातलङ्काम् प्रतिगतः पुरी एवमस्मि तदा मुक्तः सहायास्ते निपातिताः अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा तन्मया वार्यमाणस्तु यदि रामेण विग्रहम् करिष्यस्यापदम् घोराम् क्षिप्रम् प्राप्य न शिष्यसि क्रीडारतिविधिज्ञानाम् समाजोत्सवदर्शिना रक्षसाम् चैव सन्तापमनर्थम् चाहरिष्यसि हर्म्य प्रासादसम्बाधाम् नानारत्र विभूषिताम् द्रक्ष्यसि त्वम् पुरीम् लङ्काम् विनष्टाम् मैथिलीकृते अकुर्वन्तोऽपि पापानि श्रुतयः पापसंश्रयात् परपापैर्विनश्यन्ति मत्स्यानागहृदे यथा दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान् द्रक्ष्यस्य विहतान् भूमौ तव दोषात्तु राक्षसान् हृतदारान् सदारांश्च दश दिशः हत शेषान् शरणान् द्रक्ष्यसि त्वम् निशाचरान् शरजाल परिक्षिप्तामग्निज्वाला समावृताम् प्रदग्ध नान्यत् पापतरम् महत् प्रमदानाम् सहस्राणि तव परिग्रहे भव स्वदार निरतः स्वकुलम् रक्षराक्षसान् मानम् वृद्धिम् च राज्यम् च जीवितम् चेष्टमात्मनः कलत्राणि च सौम्यानि मित्रवर्गं तथैव च यदीच्छसि चिरम् भोक्तम् मा कृता रामविप्रियम् निवार्यमाणः स्वहृदा मया यदि दर्शयिष्यसि गम्य शिषीण बलस्त बांधवोयम क्षय रास्तर्शे श्रीमद्रमाणे वाक्यकांडे अष्टाश